दरस्मेरापाङ्गरित मृदुशोणाधरदर चालकर्णा तं सं कुसुमशयनोपगमने तदानीम् मीनाक्ष्याः पतिसमरस आलो गौतुकात् उदितो रोमञ्चः स्मरसमरक्षा गवचिदः लीलासुखम् प्रियतमस्य गरे विधातुं सव्रीड सस्पित स साद्वसंध्यताय उद्यता तस्य मनो भवविलास पशुंवदाय ली जनई उपगत बहिरेव वृति ही वृति ए